श्रीमद्भागवतमहापुराणं चतुर्षस्कन्ध अथ सप्तमोऽध्यायः मैत्री नीतेन भवेन परितुष्यता अभ्यधायि महाबाहो प्रहस्य श्रुयतामिति श्रीमहादेव उवाच नाघ्रं प्रदेशबालानां देवमायाभिभूतानां दण्डस्तत्र धृतो मया प्रजापते दग्धशेष्णो भवद्वजमुखं शिरः मित्रस्य चक्षुषे क्षेतभागं शम्बर्हिषो भगः पूसातु तु यजमानस्य दद्भिर्जक्षतु पृष्टभू देवा प्रकृतिसर्वाङ्गायेमा उष्णेषणं ददुः बाहुभ्यामविष्नो पुष्णो हस्ताभ्याम कृतबाहवः भवन्त्वं वश्चान्ये वस्तस्मा श्रोभृगुर्भवेत् नैत्री नैत्रिवाच तदा सर्वाणि भूतानि श्रुत्वा मेष्टोष्टमोदितम् परितुष्टात्मभिस्तात् साधु साध्वीत्यथा ब्रुवन् ततो मृध्वां समामं सुनाशीराश सुनाशिरासहसिभि भूयस्तद्देव देवयजनं समिढ्व द्वेधसो ययुः विधाय कार्ष्णेन च तद्यदाह भगवान् भवः सन्दधो कस्य कायेन समनीय पशु शिरः सन्दीयमाने शिरसि दक्षो रुद्राभिवीक्षितः सद्यशुब्दयोतस्थो दिशे चाग्रतो मृडम् तदा वृषध्वज द्वेषकलिलात्मा प्रजापतिः शिवावलोकादभवन् शरद्रन्ध्रजयवामलः भवस्तवायङ्कृतधीर्णाशक्नो जनुरागतः औत्कण्ठ्याद्वात्मकलया सम्परेतां श्रुतां स्मरन् तीर्थासंसभ्य च मनः प्रेमविवलितसुधी सशंसनिर्बलीकेन भावेनेशं प्रजापतिः दक्ष उवाच भूयाननुग्रहो भवता कृतो मे दण्डस्त्वया मयि वृतो यदपि प्रलब्ध न ब्रह्मबन्धुसु च वां भगवन्नवज्ञातभ्यं हरेशकृतयेऽवधितव्रतेषो निद्या तपोव्रतधरान्मुखतस्मभिप्रान् ब्रह्मात्मतत्त्वमं तु प्रथमं समस्रा त ब्राह्मणान् परमसर्वविपशुपाशीपालपशूनि विभों प्रगृहीतदण्डः योऽसौ मया विदितद्वदिशासभायां क्षिप्तो दुरुक्तिविशुखैरगुणं गणय्य तन्माम् अर्वाकपतन्तर्महत्तमणिनन्दयापा दिष्टार्जया च भगवान् स्वकृतेन तुष्येत् नद्रिवाच समाप्यैवं स मृह्वन्मृह्वांसम् ब्रह्मणा चानुमन्त्रितः चर्मसां कर्मसन्तानयामा च सोपाध्यायर्विगादिभिः वैष्णवं यज्ञसन्तत्यै दृकुपालं पुरोदाशं निर्वपन्वीरसंसर्गशुद्धये अध्यर्गुणाद्दह विषा यजमानो विषाम्पते धिया विशुद्धया दध्यौ तथा प्राचुरभुद्धरे तदा श्वप्रभृया तेषां दोतयन्त्यादिशोदथ मुष्टन्ते श्यामो हिरण्यरशनोर्कङ्किरीटजुष्टो लीलालकभ्रमरमण्डितं कुण्डलास्य कम्बब्जं चक्रशरचापगदासि चरम व्यग्रैर्हिरण्यं मयि भुजैरिवकर्णिकारः वक्षस्यधिश्रितं मधूरुं वनमालिदारहासालोककलसकलया रमयन् सविश्वम् पार्श्वभ्रमव्यजनचामरराजहंस श्वेतातपद्य शशशिनोपरिरज्यमान तमुपकां तनूपागतमालक्ष्य सर्वे सुरगुणादयः प्रणेमू सहसोत्थाय ब्रह्मेन्द्रत्यक्षनायकाः तत्तेजसाः तरु च शन्यजेवा शसाध्वजाः मृध्यार्थिताञ्जलिपूटामुपतस्थो रथोऽक्षजम् अभ्यर्वावृत्तयो यस्य महित्वात्मभुवादयः यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसिजां परं गुरुन् सुनन्दनन्दाद्यनुगैर्मितं मुदां गृणं गृणन् प्रपेदे प्रयत कृताञ्जलिः दक्षुवाच शुद्धं सधाम्योपरता किलबुद्ध्यवस्थं चन्मात्रमेकमभयं प्रतिषिध्यमायां तिं सत्ययैव पुरसमुपेत्य तस्यामासे भवानं परिशुद्धैवात्मतन्त्रः ऋत्यजुचोः तत्त्वं न ते वयमनञ्जनरुद्रशापात् कर्मण्यवग्रहतियो भगवन्विदामः धर्मोपलक्षणविदं त्रिविध्वराख्यं ज्ञातं यदर्थमधिदैवमदो व्यवस्था सदस्यावचुः उत्पत्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र व्यालान्विनष्टे विषयं मृगतृश्यात्मके होरुभार द्वन्द्वस्वभ्रीं छलमृगभये शोकता पादौकस्ये सरलकदा याति कामोपशिष्टः रुद्रवाच तव वरदम्बराङ्घ्रावासि सेहाखिलार्थे यपि मुनिभिरसक्तये आदरेणार्हणीये यदि रचितदियं माविद्यलोकोपवेदम् जपति न तद्वान् परानुग्रहेर भृगुर्वाच जन्मायया गह्नया प्रहितात्मबोधा ब्रह्मादयस्तु निवृत तमसि शपन्त नात्मान्सितं तो विदन्त्यधुनापि सत्त्वं सोऽयं प्रसीदतु भवान् प्रणतात्मबन् बन्धो ब्रह्मोवाच नैतस्वरूपं भगवतो सौ पदार्थभेदाग्रहैः पुरसो यावदीक्षेत ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद्वतिरिक्तो यतस्तुतम् इन्द्रुवाच इदमप्यच्युतं विश्वभावनं वपुरानन्दकरं मनो दिशा सुरविद्विटक्षपणैरुदायुधैर्भुदण्डरैरूपपन्नमश्मष्टभी तत्नोचुः यज्ञोऽयं तव यजनायकेन श्रेष्ठो विध्वस्तपशुपतेनाद्य दक्षकोपात् तं न स्वं शवं सेनाभशान्तमेधं यज्ञात्मन्नलीनरुचा दिशा पुनेः